श्रीभगवद्गीतासहस्रनामावले गीतानामावले जीयान् मण्डले भरतादृते दि ओरिजिनल् बुक् वास् कम्पाल्ड् बै पण्डित् ब्रह्मश्री श्री एस् के पद्मनाभशास्त्री एण्ड् श्री वि श्रीनिवास अय्यङ्गार् पब्लिश्ड् बै श्रीकुपुस्वामीशास्त्रीमहोदयाः मद्रपुरीसंस्कृतसेवासमितिः प्रिण्टेड् इन् नैन्टीन् नैन्टि थ्री ॐ परमात्मने नमः ॐ धर्मक्षेत्राय नमः ॐ कुरुक्षेत्राय नमः ॐ युयुत्सवे नमः ॐ पाण्डुपुत्राचार्याय नमः ॐ धीमते नमः शूराय नमः ॐ महेश्वासाय नमः ॐ महारथाय नमः ॐ वीर्यवते नमः ॐ विक्रान्ताय नमः ॐ उत्तमौजसे नमः ॐ भीष्माय नमः ॐ समितिजयाय नमः ॐ नानाशस्त्रप्रहरणाय नमः ॐ युद्धविशारदाय नमः ॐ महास्यन्दनस्थिताय नमः ॐ माधवाय नमः ॐ पाञ्चजन्याय नमः ॐषिकेशाय नमः ॐ भीमकर्मणे नमः ॐ अनन्तविजयाय नमः ॐ परमेश्वासाय नमः ॐ अपराजिताय नमः ॐ महाबाहवे नमः ॐ अच्युताय नमः ॐ गुडाकेशरथस्थापकाय नमः ॐ पार्थप्रदर्शकाय नमः ॐ कृष्णाय नमः ॐ केशवाय नमः ॐ गोविन्दाय नमः ॐ मधुसूदनाय नमः ॐ जनार्दनाय नमः ॐ वार्ष्णेयाय नमः ॐ अर्जुनविषादहर्त्रे नमः ॐ भगवते नमः ॐ परन्तपाय नमः ॐ पूजार्हाय नमः ॐ अरिसूदनाय नमः ॐ महानुभावाय नमः ॐ प्रपन्नशासकाय नमः ॐ गीतावतारकाय नमः ॐ आत्मतत्त्वनिरूपकाय नमः ॐ धीराय नमः ॐ मात्रास्पर्शविवेचकाय नमः ॐ विषयाव्यथिताय नमः ॐ पुरुषर्षभाय नमः ॐ समदुःखसुखाय नमः ॐ अमृताय नमः ॐ स्वते नमः ॐ सदसद्विभाजकाय नमः ॐ सदसद्विदे नमः ॐ तत्त्वदर्शिने नमः ॐ अविनाशिने नमः ॐ अविनाश्याय नमः ॐ अव्ययाय नमः ॐ सर्वशरीरिणे नमः ॐ नित्याय नमः ॐ अप्रमेयाय नमः ॐ अहन्त्रे नमः ओम् आहताय नमः ॐ अभिज्ञाताय नमः ओम् अजाय नमः ॐ शाश्वताय नमः ॐ पुराणाय नमः ॐ ॐ नमः ॐ अदाह्याय नमः ॐ अक्लेद्याय नमः ॐ अशोष्याय नमः ॐ सर्वगताय नमः ॐ स्थाणवे नमः ॐ अचलाय नमः ॐ सनातनाय नमः ॐ अव्यक्ताय नमः ॐ अचि्याय नमः ॐ अविकार्याय नमः ॐ अशोच्याय नमः ॐ जन्ममृत्युरहिताय नमः ॐ व्यक्ताव्यक्तभूतविदे नमः ॐ आश्चर्यवदृश्याय नमः ओम् आश्चर्यवदुदिताय नमः ॐ आश्चर्यवच्छ्रुताय नमः ॐ श्रवणादिवेद्याय नमः ॐ सर्वदेहव्यापिने नमः ओम् अवध्याय नमः ॐ क्षात्रधर्मनियामकाय नमः ॐ क्षात्ररुयुद्धप्रशंसिने नमः ॐ स्वधर्मत्यागगर्हिणे नमः ओम् अकीर्तिनिन्दकाय नमः सम्भाविताय नमः ॐ बहुमताय नमः ॐ समलाभालाभाय नमः ॐ समजयाजयाय नमः ॐ सांख्ययोगप्रवक्त्रे नमः ॐ कर्मयोगप्रशंसिने नमः ॐ व्यवसायिने नमः ॐसायिविन्दकाय नमः ॐ विपश्चिते नमः ॐ वेदवादपरविदूराय नमः ॐ व्यवसायबुद्धिविदायने नमः ॐ मिस्त्री गुण्याय नमः